चतुस्सप्तति तमोऽध्यायः वैशम्पायन उवाच प्रतिज्ञाय तु प्रतियाते शकुन्तलाम् गर्भश्च ववृधे तस्यां राजपुत्र्याम् महात्मनः शकुन्तला चिन्तयन्ति राजानं कार्य गौरवात् दिवारात्रमनिद्रैव स्नानभोजनवर्जिता राजप्रेषणिका विपाश्चतुरङ्गबलैः सह अद्य वा परश्वो वा समयान्तीति निश्चिता दिवसान् पक्षान् ऋतोन्मासानयनानि च सर्वशः गण्यमानेषु सर्वेषु व्यतीयुस्त्रीणि भारत गर्भम् सुषाव वामोरु कुमारममितौजसम् त्रिषु वर्षेषु पूर्णेषु दीप्तानलसमद्युतिम् रूपौ दार्य जनमेजय तस्मै तदान्तरिक्षात्तु पपातः देवदुन्दुभयो नेदुर्नन् ऋतुश्चात्सरो गणाः तत्र देवैश्चक्रोऽवाचः शक्रौवाच शकुन्तले तव सुतश्चक्रवर्ती भविष्यति बलम् तेजश्च रूपञ्च न समम् भुवि आहर्ता वाजिमेधस्य शत सङ्ख्यस्य कौरवः अनेकानि सहस्राणि राजसूयादिभिर्मखैः स्वार्थम् ब्राह्मणसात् कृत्वा दक्षिणाममिताम् ददात् वैशम्पाय न उवाच देवतानाम् सभाजयन्त कण्वस्य सुताम् सर्वे महर्षयः शकुन्तला च द्विजानाहूयमुनिभिः सत्कृत्य च महायशाः जातकर्मादि संस्कारम् कण्वः पुण्यकृताम् वरः विधिवत् कारयामास वर्धमानस्य धीमतः दन्तैः शुक्लैः शिखरिभिः सिंहसंह ननो महान् चक्राङ्कितकरः श्रीमान् महामूर्धा महाबलः कुमारो देवगर्भाभः न तत्राशु व्यवर्धत षड्वर्ष एव बालस्य कण्वाश्रम पदम् प्रति सिंहव्याघ्रान् वराहांश्च महिषांश्च गजांस्तथा बबन्धवृक्षे बलवानाश्रमस्य समीपतः आरोहम् दमयंश्चैव क्रीडंश्च परिधावति ततश्च राक्षसान् सर्वान् पिशाचांश्च रिपून् रणे मुष्टियुद्धेन तान् जित्वा ऋषीनाराधयत्तदा कश्चिद्दिति सतस्तम् तु हन्तु महाबलः वध्यमानाम् स्तुदयिते यानमर्षी तम् समभ्ययात् प्रहस्यैव बाहुभ्याम् परिगृह्य च दृढम् चाबध्य बाहुभ्याम् पीडयामासतम् तदा मर्दितो न शशाकास्य मोचितुम् बलवत्तया प्राक्रोशद्भैरवम् तत्र द्वारेभ्यो निःसृतम् त्वसृक् तेन शब्देन वित्रस्ता मृगाः सिंहादयो गणाः सुस्रुवुश्च शुक्रुन्मूत्रमाश्रमस्थाश्च च सोपतत् तम् दृष्ट्वा विस्मयम् चक्रुः कुमारस्य विचेष्टितं। नित्यकालम् वध्यमाना दैतेया राक्षसैः कुमारस्य भयादेव नैव जग्मुस्तदाश्रमम् ततोऽस्य नाम चक्रुस्ते कण्वाश्रम निवासिनः अस्त्वयम् सर्व दमनः सर्वम् हि समन्वितः अप्रेषयति दुष्यन्ते पाण्डुभावपरीताङ्गी चिन्तया समभिप्लुताम् लम्बालकाम् कृषां दीनां तथा मलिनवाससम् शकुन्तलाम् च सम्प्रेक्ष्य प्रदध्यौ समुनिस्तदा शास्त्राणि सर्ववेदाश्च द्वादशाब्दस्य चाभवन् तम् कुमारम् ऋषिर्दृष्ट्वा कर्म चा भवन, समयो यौवराज्यायेत्यव्रवीम् च शकुन्तलाम् शृणु भद्रे मम सुते मम वाक्यम् शुचिस्मिते चाच्यते पूर्वं पूर्वम् मनोवाक्कायचेष्टितैः अनुज्ञाता मया पूर्वं पूजयै तद्व्रतम् तव एतेनैव च वृत्तेन विशिष्टाम् लप्स्यसे श्रियम् तस्माद्भद्रे प्रयातव्यम् समीपम् पौरवस्यः स्वयम् नायाति मत्वाते ते गतम् कालम् गत्वा राधय राजानम् दुष्यन्तम् हितकाम् यया दौष्यन्तीम् यौवराज्यस्थम् दृष्ट्वा प्रीतिमवाप्स्यसि देवतानाम् गुरूणाम् च क्षत्रियाणाम् च भामिनि भर्तॄणाञ्च विशेषेण हितं सङ्गमनम् सतां, तस्मात् पुत्रिकुमारेण गन्तव्यम् मत्प्रियेप्सया प्रतिवाक्यम् न दद्यास्त्वम् शापिता मम पादयोः वैशम्पायनौ उवाच एवमुक्त्वा सुताम् तत्र पौत्रं कण्वोऽभ्यभाषत परिष्वद्य च बाहुभ्याम् मूर्ध्युपाघ्राय पौरवम् कण्वौ वाच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 तस्य तद्बलमाज्ञाय कण्व शिष्यानुवाचः शकुन्तलामिमाम् सहपुत्रामितो सः पुत्रामितो गृहात् भर्तुः प्रापयतागारम् सर्वलक्षण पूजिताम् नारीणाम् चिरवासो हि बान्धवेषु न रोचते कीर्तिचारित्र